चतुरविचारधुरीण महाशिव दूतकृत प्रमथाधिपते दुरित दुरीह दुराशय दुर्मति दानवदूतकृतान्तमते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते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 लगण्डगलन् मदमेधुरमत्तमतङ्गज राजपते त्रिभुवन राजसुते अयि सुदती राजसुते जय जय गे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते कमलदलामलकोमलकान्तिकला कलितामलफालते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 जय जय हे महिषासुरमर्दिनि रम्यकपद्दिनि शैलसुते कटितटपीतदुकूलविचित्रमयूख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 भजति स किं न शचीकुचकुम्भतटी परिरम्भसुखानुभवम् तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम् जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि ुमलं सकलं ननुकूलयते किमु सुमुखी सुमुखीभिरसौ विमुखी क्रियते मम तु मतं शिवनामधने भवति कृपया किमुत क्रियते